देवी देवीनारायणीयं दशकं तर्टिवन् कश्चित्पुरामन्द्रमुदीर्यगायत्रीदिप्रसिद्धन्दिजोऽरुणाख्यः चिराय कृत्वा तप आत्मयोनेः प्रसादितादापवरान्पूर्वान् स्त्रीपुंभिरस्त्रैश्चरणे द्विपादैश्च दुष्पदैश्चाप्युभयात्मकैश्च अवध्यतान्देव पराजयं दिवमाससाद रणे जिदा प्राप्य शिवं रिपूणां संयग्वोपायमचिन्तयंश्च तथा भवत्काप्यशरीरिणी वाग्भजे देवीं शुभमेव स्यात् दैत्योऽणो वर्धय दीह गायत्युपासनेनात्मबलं त्वदृश्यम् यद्येष तं मन्द्रजपञ्जहादिसदुर्बलः साध्यवधोऽपि च स्यात् एवन्निशम्यत्रिदशैः प्रहृष्टैरभ्यर्थितो देवगुरुः प्रतस्थे स स्मितार्द्रमोचे कुशलीसबन्धुमित्रो भवान् किं जगदे गवीर दैत्यस्य ते मन्द्रजपेन किं यो नूनं बलिष्ठन्त्वबलं करोति येनैव देवा अबलारणे श्रुत्वयाजितास्त्वं स्वगितं सन्न्यासिनो मन्त्रजपेन रागद्वेषादिजेतुं सततं यदन्दे नत्वं त्वं यदिर्नापि मुमुक्षुरार्ध कामादिशक्तस्य जपेन किन्दे एकं हि मन्त्रं समुपास्वहे द्वौ तेनासि मित्रं मम तद्वदामि मन्द्रश्च मे मुक्दिदयेव तुभ्यं वृद्धिन्न दद्यादयमित्यवेहि बृहस्पदावेवमुदीर्ययादे सत्यं तदुक्तं दिदिजो विचिन्त्य क्रमाजहौ मन्त्रजपं सदाहि हि विनेयबुद्धिः एवं गुरौ कुर्वदि दैत्यभिधैः कृत्वा तपो योगजपाध्वरादिजाम्बूनदेश्वर्यमरैस्तुता त्वं प्रसादिता प्रादुर्भूकृपार्द्रा त्वद्देहजातैर्भ्रमरैरनन्दैर्दैत्यः ससैन्यो विफलास्त्रशस्त्रः दष्टोहदस्त्वञ्च नुदिप्रसन्ना पश्यत्सु देवेषु तिरोहिदा भूः स्वदेहदो वै भ्रमरान् विधात्री त्वं भ्रामरीधिप्रदिदा अहो विचित्रास्तव देवीलीला नमो नमस्ते भुवनेशि मातः ओ देवीनारायणीयम् दशकं तटिटु पुरासुरावर्षशतं रणेषु निरन्तरेषु त्वदनुग्रहेण विजित्य दैत्याञ्जननीमपि त्वां विस्मृत्य दृप्ता नितराम्बभूवुः मयैव दैत्याबलवत्तरेण हता न चान्यैरिति देवा अभूवन्नदिदर्पवन्तस्त्वं देवि चान्धः तच्चित्तदर्पासुरनाशनायते जोमयं यक्ष वपुर्दधाना त्वं नादिदूरे स्वयमाविराशीस्त्वां वासवाद्याददृश्युः सुरौखाः सद्य किल शङ्क्यदतैरिदङ्किं मायासुरीवेदितदो मो न अग्निर्नियोक्तो भवतीमवाप्तः पृष्टस्त्वया कोऽसि कुतोऽसि चेति स चाह सर्वैर्विदितोऽग्निरस्मि मय्येव तिष्ठत्यखिलं जगच्च शक्नोमि दग्धुं सकलं हविर्भुं मद्वीर्यदो दैत्यगणाजिताश्च ृदाशुष्कतृणन् त्वमेकं पुरो निधायाद्धदहै ददाशु एवञ्ज्वलन्नग्निरिदं च दग्धुं कुर्वन् प्रयत्नं न निवृत्तस्तदो निलो वज्रभृदा नियुक्तः त्वां प्राप्तवानग्निवदेव पृष्ठो देवि स्वमाहात्म्यवचो बभाषे मां मादरिष्वानमवे हि सर्वे व्यापारवन्दो मयैव जीवाः न गृह्णामि सर्वञ्चलयामि विश्वं इत्युक्तमाकर्ण्य तृणन्तदेव प्रदर्श्य चैदच्चलयेत्य भाणिः प्रभञ्चनस्तत्स च कर्म कर्तुमशक्त निवृत्तः अधाभिमानी शतमन्युरन्तरग्निं च वायुञ्च हसन्नवाप त्वां यक्षरूपां सहसातिरोभूत्सो दह्य तान्दस्वलखुत्वभीत्या अथ नुसारी हृङ्गारमन्त्रं सचिराय जत्वा पश्यन्नुमान् त्वां करुणाश्रुनेत्रां न नामभक्रिया शिथिलाभिमानः ज्ञानं परन् त्वन्मुखतः स लब्ध्वा कृताञ्जलिर्नम्रशिरा निवृत्तः सर्वामरेभ्यः प्रददौ तदस्ते सर्वं त्वदिच्छा वशगं व्यजानन् तदः सुरा दम्भवि मोक्तिमापुर्भवन्तु मर्त्याश्च विनम्रशीर्षाः अन्योन्यसाहाय्यकराश्च सर्वे मा युद्धवार्ता भुवनत्रयेस्तो त्वदिच्छया सूर्यशशाङ्कवह्निवाय्वादयो देविसुरास्वकानि कर्माणि कुर्वन्ति न ते स्वतन्त्रास्तस्यै नमस्ते स्तुमहानुभावे ओ देवीनारायणीयं दशकं तर्टि त्रि शक्रः पुराजीवगणस्य कर्मदोषात्समाः पञ्चदशक्षमायाम् पृष्टिन्न चक्रे धरणि च शुष्कवापी तडागादिजलाशयासीत् सस्यानि शुष्काणि खगान् मृगांश्च भुक्त्वाप्यतृप्ताः क्षुधया तृषा च निपीडिता चाहो मर्त्या अनिष्टान्यपि भुञ्जते श्रोधार्दिता सर्वजना महापद्विमुक्तिकामा मिलिधा कदाचित् तपोधनं गौतममेत्यभक््या पृष्टा मुनिं स्वागमखेदुमोचुः विज्ञाय सर्वं मुनिराकृपालु सम्भुज्य प्रसाद्य दृष्ट्वा च तवैव हस्ताल्लेभेन वङ्गामदपात्रमेकम् दुकूलसौवर्णविभूषणान्नवस्त्रादिगावो महिषाधयश्च यद्यज्जनैरीप्सितमाशु तत्तत्तत्पात्रतो देवि समुद्बभूव रोगो न दैन्यन्नभयन्न चैव जनामिधो मोदकरा बभूवुः ते गौदमस्योग्रतपःप्रभावमुच्चैर्जगुस्तां करुणार्द्रतां च एवं समाद्वादश तत्र सर्वे निन्यु कदाचिन्मिलितेषु तेषु श्रीनारदो देवी शशिव गायत्र्याश्चर्यशक्तिं प्रगृणन्नावाप सपूजितस्तत्र निषन्नवुच्चैर्निवेद्यतां गौतमकीर्तिलक्ष्मीं सभा सुशक्रादिसुरैः प्रगीताञ्जगामसन्तो जगृशुकृतज्ञाः काले धरां वृष्टिसमृद्धसस्यान् दृष्ट्वा जना गौदममानमन्तः आपृच्छ्यदे सज्जनशङ्कपूदा मुदा जा स्वगृहाणि जग्मुः दुःखानि मे सन्तुयदो मनो मे विशुद्धमस्तु त्वयि बद्धरागो भवानि दे देवि भूयः ओ देवी, देवी नारायणीयं दशकम् टर्टि फोर् स्वर्वासिभिर्गौदमकीर्तिरुच्चैर्गीता सभा आकर्ण्यदेवर्षिमुखात् कृतघ्नाद्विजा बभूभुक् किलशेर्ष्यचित्ताः तैर्मायया सन्नमृधिकृता गौ सा प्रेषिता गौदमहोमशालाम् अगान्मुनेर्जुह्वद एव वह्नौ हदा हदा गौरिह गौदमेनेत्युच्चैर्द्विजा प्रोच्य निषिद्धकर्माचरणेरतास्तस्त्रियः प्रजावोऽपि तथा भवन्तु सत्सङ्गमो मास्तु जगज्जनन्यात् कथा मृदेवो नरधिक् खलु स्यात् उक्त्वैव मार्यो मुनिरेत्य गायत्याख्यां कृपार्द्रां भवदीन्न नाम त्वमाधदुग्धम्भुजगाय दत्तं दादुःसदानर्धदमेव विद्धि स देदृशी कर्म गतिर्महर्षे शान्तिं प्यदामेव मृषिर्निशम्य महानुतापार्द्रमना बभूव शब्दाद्विजा विस्मृतवेदमन्त्रा लब्ध्वा विवेकं मिलिता मुनिन्दं प्राप्ता प्रसीदे मुहुर्वदन्तो न त्वात्र कृपार्द्रनेत्रो मुनिराह नस्यान्मृषावचो मे नरके वसेत जायेदविष्णोर्भुवि कृष्णनामा वन्देत तं शापविमोचनार्थं स्वपापमुक्त्यर्थमनन्दशक्रिन्देवीम् तदा ध्यायदभक्त्रिपुदात् सर्वत्र भूयाच्छुभमित्युदीर्य गायत्रि दध्यौ भवतीं महर्षिः मुञ्चानि मास्तु ममान्तरङ्गे नि सज्जन मेषो भवादे नमस्ते ओम। देवी दशकं 35 देवीनारायणीय दशकंथिफाइ भाग्योदयेत्री मनुष्यदा सज्जन संगमश त्वदीयमाहात्म्यकथाश्रुतिश्च यतः पुमां त्वत्पदभक्त्रिमेदि तदः प्रसीदस्य अखिलार्थकामान्भक्तस्य यच्छस्य भयं च मातः क्षमाम् कृतागस्सु करोषिचार्योरन्योन्यवैरं शमयस्य निह दुष्कीर्तिभीत्यापृथया कुमार्यात्यत्तन्तडिन्यां सुतमर्कलब्धं सम्प्रार्थिता त्वं परिपालयन्ती प्रादर्शयस्वं करुणाप्रवाहम् सुदान् कुरुक्षेत्ररणे पदान् स्वान् दिदृक्षवेमातृगणाय कृष्णः सम्प्रार्थितस्त्वत्करुणाभिषिक्तः प्रदर्श्य सर्वान् समतोषयच्च वणिक्सुशीलखलु नष्टवित्तो व्रतञ्चरन् देवि सम्पूज्य दरिद्रभावान्मुक्तक्रमाद्वित्तसमृद्धिमाप देवद्रुहो देवी रणे त्वयैव दैत्याहदा गर्हितधर्मशास्त्राः प्रह्लादमुख्यान् सुरान् स्वभक्तान् देवांश्च सन्ध्यक्तणानकार्शीः पुरन्तरे पापतिरोहिते तत्स्थानाधिरूढान्नकृशात् स्मरार्ताद् भेदाशचि त्वां परिपूज्य दृष्ट्वा पदिङ्क्रमद्भिमुक्तिमाप चप्तो वसिष्ठेन निमिर्विदेहो भूत्वाभिदेवित्वदनुग्रहेण ज्ञानं परं प्रापनिमेः प्रयोगान्निमेषिणो जीवगणा भवन्ति भार्गवालो भविकोपचित्तैः प्रपीडिता हैहयवंशजातैः है हिमाद्रिमाप्ता भवदीं प्रपूज्य प्रसाद्यभिदे खलु मुक्तिमापुः दस्रौ युवानां च्यवनं पदीं समानरूपानभिदृश्यमुग्धा सती सुकन्या तव संस्मृतया भक्त्या प्रसादात् स्वपदिं व्यजानात् सत्यव्रदो विप्रवधूं प्रशह्य हर्ता निरस्तो जनकेन राज्यात् वसिष्ठशक्तोऽपि तव प्रसादाद्राज्येऽभिषिक्रोधदिवङ्गदश्च आहा हरिश्चन्द्रनृपो विपत्सुमग्नः तस्ते सुरलोकमाप अगस्त्यपूजां परिगृह्यदेवि विभासि विन्ध्याद्रिनिवासिनी त्वं द्रक्ष्येकदा त्वां मम देहि भक्तिङ्गारुण्यमूर्ते सततं नमस्ते ॐ देवी नारायणीयं दशकम् तर्टि सिक्स् त्वमेव मूलप्रकृतिस्त्वमात्मा त्वमस्य रूपा बहुरूपिणी च दुर्गा जराधा कमला जवित्र्याख्या सरस्वत्यपि च त्वमेव दुर्गा जगद्दुर्गदिनाशिनी त्वं श्रीकृष्णलीला रसिका शिराधा शोभास्वरूपासि गृहादिषु श्रीर्विद्यास्वरूपासि सरस्वती च सरस्वती गुरुशापनष्टान् त्वं व्याज्ञवल्क्याय ददाध विद्यां त्वामेव वाणी कवजञ्जबन्तः विद्यां बहवो त्वं देवि सावित्र्यभिदाण्डधासि प्रसादतस्ते खलु वेदमाधुः लेभे नृपालोष्वपदिस्तनूजान्नाम्ना च सावित्र्यभवत्किलयिषा सा सत्यवन्दं मृदमात्मकान्तमाजीवयन्ति श्वशुरं दूरीकृताध्यन्तनयानसोदयमद्गुरोरापजधर्मशास्त्रम् स्कन्दस्य पत्नी खलु बालकाधिष्ठात्रीजषष्टीधिजगत्प्रसिद्धा त्वं देवसेनाधनदाधनानां पुत्रीणां पुत्रसुखं ददासि सत्कर्म तनये मृदे तु प्रियव्रदो दूयदभक्वर्यः तञ्जीवयित्वा मृतमस्य दत्त्वा स्वभक््रवात्सल्यमदर्शयस्त्वं त्वमेव गङ्गा च स्वाहा स्वधा सुरभिश्च देवि त्वं दक्षिणा कृष्णमयी च राधा दधासि राधामय कृष्णतां च त्वं ग्रामदेवी नगराधिदेवी वनाधिदेवी गृहदेवता च सम्पूज्यते भक्तजनैश्चयाय सा सात्वमे त्वमेवासि महानुभावे यद्यच्छ्रुदन्धृष्टमपि स्मृतं च तत्तत्त्वदीयं कि कलांशजालं न किञ्च नास्त्येव शिवे त्वदन्यद्भूयो विमूलप्रकृते नमस्ते ओ देवीनारायणीयं दशकं थर्टि सेवेन् पुराहरिस्त्वा किल सात्त्विकेन प्रसादयामासमकेन देवी सुरेश्रुतं श्रेष्ठतमञ्चकर्थसतेन सर्वत्र बभूव पूज्यः अधर्मवृद्धिश्च यदा त्रिलोके धर्मक्षयश्चापि तदा भवत्या धर्मं समुद्धर्तुमधर्ममृद्धं मार्ष्टुं च देव्येष नियुज्य देहि स ईद्यते दे सर्वद एव सर्वैः पत्न्याजभूतैश्च समङ्गिरीशः इलावृते पुरुषसन्निधाने सङ्घर्षणाख्यं भजदे मुरारिं। तमेव भद्रस्रवसोहयास्यं भद्राश्ववर्षे मुनयस्तुवन्ति प्रह्लाद उच्चैर्हरिवर्षवासी विश्वार्थिशान्त्यै नृहरिञ्चनौदि श्रीकेतुमाले खलु कामरूपन्तं रम्यगे मत्स्यतनुं मनुश्च हिरण्मये को मम शरीरभाजं स्तुवन्ति नारायणमर्यमाच महावराहङ्कुरुषूत्तरेषु भूराकवङ्किं पुरुषे तन्नारदो भारतवर्षवर्ती नरञ्चनारायणमाश्रयन्ते सत्कर्मभूमिर्भरतस्य राज्यं सन्त्यत्र वैकुण्ठकथैकशक्ताः तीर्थानिपुण्याश्रमपर्वताश्च जन्मात्रदेवास्पृशयन्त्यजस्रं प्रह्लादपौत्रः सुतलाधिवासः वार्धक्यरोगक्लमभिधिमुक्तो महाबलिर्वामनमेवनौदि सहस्रशीर्षशिरसाधथक्ष्मां हलिहरेस्तामसमूर्तिरार्यैः संस्तूयमानः सह सलीलमास्ते विचित्ररूपं जगदां हिताय सर्वे स्तुवन्द्यच्युदमिद्धभक्त्या येन वरदानदक्षं माधकृपार्द्रे वरदे नमस्ते ॐ देवीनारायणीयं दशकं तटि एय् अन्तर्मुखो यः स्वशुभेच्छयैव स्वयं विमर्शे न दृष्ट्वा शमाद्यैर्धुनुदे समूलं सभाग्यवान् तव प्रियश्च न तीर्थसंसेवया धानतपोव्रतैर्वा शुद्धिं मनो यादि तव स्मृतेस्तद्वैषद्यमादर्शवदेदि मातः शतक्रदुर्गौदमधर्मपत्नीमगादहल्यां मदनेषु विद्धः सविघ्नकारी तपसमुनीनां गदस्पृसं योगिवरं प्रशान्तं हाविश्वरूपं पविना जखानन किञ्चना कार्यमधर्मबुद्धेः मुनिवशिष्ठु तीर्थसी तपोनिधीर्गाधिशुश्च कोपाद उध शेपुराम प्राप्त किलैको भगता परस् धनानि पृ नि गुरो न दादृन् स्वान् भार्गवान् पुत्रकलत्रभाजः क्रुद्धाः परं हैहयभूमिपालान्यपीडयन् कोत्र विशुद्धचित्तः कुल्यान्न किं लोभहदो मनुष्यो युधिष्ठिराद्या अपि पितामहं बन्धुजनान् गुरूंश्च रणे निजघ्नु खलु कृष्णो पदिष्टो जनमे जयस्तु शुद्धान्तरङ्कः पितरं मखेन परीक्षितं पापविमुक्तमार्यम् विधायते प्रापयति स्म लोकम् सदा सदाचाररथो विविक्ते देशे निर्माष्टि ध्यायन्नजस्रन्निजवासनायो निर्माष्टिसत्वन्मयदामुपैति ज्ञानन्न भक्तिर्न तपोनयोगबुद्धिर्न मे चित्तजयोऽपि मातः अन्धन्तमोहं प्रविशामि मृत्योसमुद्धरेमं वरदे नमस्ते ओम। देवी ओविनारायणीयं दशकं थर्टि नैन् सुधा समुद्रो जगदान्त्रयाणाञ्चक्त्रीभवन्मञ्जुतरङ्गफेनः सवालुकाशङ्खविचित्ररत्नसतारकव्योमसमो विभाति तन्मध्यदेशे विमलं तन्मध्यदेशे पदन् देवि विराजते दे, ते यदुच्यते संस्कृतिनाशकारि सर्वोत्तरं पावनपावनं च तत्रास्त्ययो धातुमयो मनोज्ञः सालो महासारमयस्ततश्च एवञ्च ताम्रादिमहाखिलाष्टादशादिचित्रा वरणालसन्ति तैरावृतन्ते पदमद्वितीयं विभातिचिन्तामणिषत्मदेवि सन्ध्यत्र सत्तम्भसहस्ररम्यशृङ्गारमुक्त्यादिकमण्डपाश्च ब्रह्माण्डकोटी सुखमावसन्द उपासकास्ते मनुजाः सुराश्च दैत्याश्च सिद्धाश्च तथेतरे च यदं दो यान्ति पतन्तदेतद् त्वं कलगीतकानि ज्ञानं विमुक्तिं च ददासि लोकरक्षामजस्रङ्गुरुषे च देवी मञ्चोऽस्ति चिन्तामणिगेहतस्ते ब्रह्मा हरि रुद्र इहेश्वरश्च खुरा भवन्त्यस्य सदाशिवस्तु विराजदे सत्फलकत्वमाप्तः स्योपरिश्रीभुवनेश्वरि त्वम् सर्वे श वामाङ्कतले निषण्णा चतुर्भुजा भूषणभूषिताङ्गी निर्व्याजकारुण्यवदी विभासि प्रदिक्षणङ्कारयसि त्वमिच्छाज्ञानक्रियाशक्तिसमन्वितात्र त्रिमूर्तिभिसहस्रयुक्ता ब्रह्माण्डसर्गस्थिति संहृतिश्च सा त्वं हि वाचा मनसोऽप्यगम्या विचित्ररूपास्ति सदाप्यरूपा पुरः सदां कृपार्द्रा सदा मणिद्वीपनिवासिनी च माधर्मदन्धकरणे निषण्णा विद्यामयं मां कुरु बन्धमुक्तं बद्धं च ददास्य सक्ता दासोऽस्मि ते नमो नमस्ते देवी नारायणीयं दशकं 40 आद्येति विद्येति च कथ्यते या या चोदयेद्बुद्धिमुपासकस्य ध्यायामि तामेव सतापि सर्वचैतन्यरूपां भवमोचनी त्वां प्रतिष्ठितान्धक् रणेस्तु वाक्मे वदामि सत्यं वदाम्य सत्यं सत्योक्तिरनं परिपादु मां मे श्रुतं च मा विस्मृति मे दु मातः तेजस्वि मेधीदमजस्रमस्तु मामा परद्वेषमतिश्च देवि करोमि वीर्याणि समं सुहृद्भिर्विद्यापरासावधु मां प्रमादात् त्वं रक्ष मे प्राणशरीरकर्मज्ञानेन्द्रियान्धक् करणानि देवि भवन्तु धर्मा मयि वैदिकास्ते निराकृतिर्मास्तु मेधक् कृपार्द्रे यच्छ्रूयते यत्खलु च ततस्तु भद्रं सकलं यजत्रे त्वां संस्तु वह्नस्तसमस्तरोग आयुःशिवे देवहि दन्न यानि अविघ्नमायात्विह ज्ञानं प्रसन्ना मम बुद्धिरस्तु दुरिदं समस्तन् समस्तन्त्वत्सेवयैवादितरामि देवि उर्वारुकं बन्धनदो यथैव तथैवमुच्येय च कर्मपाशात् त्र्यम्पकाङ्कीर्तिमधीं यजेय सन्मार्गतो मान्नय विश्वमातः चेणायुषो मृत्युगदान् स्वशक्रिया दीर्घायुषो वेदभयान् करोषि सङ्गच्छतः संवदतश्च सर्वान् परोपकारैकरतान् कुरुष्व मर्त्योह्यहं बालिशबुद्धिरेव धर्मानभिज्ञोऽप्यपराधकृत्य हा दुर्लभं मे कपिहस्तपुष्पसुमाल्यवच्चेर्नमिद यथा पथा वारि यथा जगौ वत्सं तथा धावदु मां मनस्ते विश्वानि पापानि विनाश्य मे यद्भद्रं शिवे देहि तदा तिहन्त्रि बहोक्तिभिः किं विदितस्त्वयाहं पुत्रशिशुस्ते आगच्छ पश्यामि मुखारविन्दं सदाम्बुजाभ्यां सततन्नमस्ते ओ देवी नारायणीयं दशकं फट्टिवन् देवि त्वदावास्यमिदन्न बहुदेवभासि। देवासुरासृक् पनरादिरूपा विश्वात्मिके ते सततन्नमोऽस्तु न जन्मदे कर्म च देवि लोकक्षेमायजन्मानि दधासि मातः करोषि कर्माणि ज निःस्पृह सततन्नमस्ते तत्त्वत्पदं यद्ध्रुवमारुरुक्षुः पुमान्वृदी निश्चलदेहचित्तः करोदि तीव्राणितपांसि योगी तस्यै नमस्ते जगदम्बिकायै त्वदाज्ञया वात्यलो नलश्चज्वलत्युदेद्युमनिश्चशी च निजैर्निजैकर्मभिरेव सर्वे त्वां पूजयन्ते वरदे नमस्ते भक्तिर्नवन्ध्या यदेव देवि गादिरोगाभिभवाद्विमुक्ताः मर्त्यादयस्त्वत्पदमाप्नुवन्ति तस्यै नमस्ते भुवनेशि मातः सर्वात्मना यो भजते त्वदङ्क्रिं मायातवामुष्यसुखं ददाति दुःखं च सात्वद्विमुखस्य देवि मायाधिनाथे दे सततन्नमस्ते दुःखं न दुःखं सुकं सुखं सुखं च त्वद्विस्मृतिर्दुःखमसह्यभारं सुखं सदा त्वत्स्मरणम् लोकाय सन्देहि नमो नमस्ते पतन्तु ते देवि कृपाकटाक्षाः सर्वत्र भद्राणि भवन्तु नित्यं सर्वोऽपि मृत्योरमृतत्वमेदु नश्यन्त्वभद्राणि शिवे नमस्ते नमो नमस्ते किलशक्तियुक्रे नमो नमस्ते जगदां विधात्रि नमो नमस्ते करुणार्द्रचित्ते नमो नमस्ते सकलार्तिहन्त्रि दुर्गे महालक्ष्मि नमो नमस्ते भद्रे महावाणी नमो नमस्ते कल्याणि मादङ्गिरमे भवानि सर्वस्वरूपे सततं नमस्ते यत्किञ्चिदज्ञातवदेहदेवी नारायणीयं रचितं अभद्रनाशाय सदां हिदाय तव प्रसादाय च नित्यमस्तु ओ शुभम्